अरवतिरण्डावद् दशकम् इन्द्रयागम् कदाचिद् गोपालान् विहितमकसंवारविभवान् निरीक्ष निरीक्षत्वं सौरे मघवमदमु त्वम् सितुमनः विजानन्नप्येतान् विनयमृदुनन्ददिपशुपान् अभ्रश्च को वायम् जनक भवतामुद्यमयिति पभाषे नन्दस्त्वाम् सुतननु विधेयो मगवतो मको वर्षे वर्षे सुकयति स वर्षेण पृथिभीम् नृणा निखिलमुपजीव्यम् महितने विशेषादस्माकम् दृढसलिलजीवा हि वषमाम् इति श्रुत्वा वाचम् पितुरै भवानाकसरसम् दिके तन्नो सत्यम् मगवजनिता वृष्टिरिति यत् अद्रोष्टम् जीवानाम् सृजति खलु आरण्ये वृक्ष किमिव बलिमिन्द्रयतते इदम् दावत् सत्यम् यदि गबशवो न कुलधनम् तदा जीव्यायासौ बलिरचलभर्त्रे समुचित सुरेभ्यो युत्कृष्टा ननु धरणि देवाशितितले ततस्तेत्याराध्या इति जगदि तत्त्वम् भवत्पाचम् श्रुत्वा बहुमतियुतास्तेऽपि पशुप द्विजेन्द्रानर्चन्तो बलिमदुरोश्चैषिति पृथे व्यदो प्रादक्षिण्यम् सुभृशमनमन् आदरयुत त्वमादशैलात्मा बलिमखिल मा वीरपुरत अवोचश्चैवम् तान् किमिक विदतम् मे निगदितम् गिरीन्द्रोऽनन्वेष स्वबलिमुपभुङ्क्ते स्वबपुष अयम् गोत्रो गोत्र द्विषि च कुपिते रक्षितुमलम् समस्तानीत्युक्ता जक्रुषुरकिला गोकुलजुष परिप्रीता याता तावन् निजमकविभङ्गम् निशमयन् भवन्तम् जानन्नप्यधिगरजसा क्रान्तहृदयो न सेहे देवेन्द्र त्वदुपरचितात्मोन्नतिरपि मनुष्यत्वम् यातो मधुपिदपि देवेष्व विनयम् विदत्ते चेन्नष्ट त्रिदश सदा सान् कोऽपि महिमा तदच्च त्वम् शिष्ये पशुबतकस्य श्रियमिति प्रवृद्धस्त्वाम् जेतुम् सकिलमकवा दुर्मतनिधिम् त्वदा वासं हन्तुम् वरभुवि प्रहिण्वन् कुलि प्रेभगमना प्रदस्तेन्यैरन्दर् गगनमरुदाद्यैर्विकसितो भवन्माया नैव त्रिपुवनपते मोहयति कम् सुरेन्द्रकृतश्चेत् द्विजकरुणया चैलकृपयापि अनादङ्गोऽस्माकम् नियत इति अहो किम् न यातो गिरिबिदिति सञ्चिन्त्य निवसन् मरोद्गेहादीशा बजगो बजगोपाला गता प्यारी मुरारी नंदलाला